मार्कण्डेयपुराणम् अध्यायं नैन्टी नैन् मार्दण्डमाहात्म्यवर्णनं मार्कण्डेय उवाच तस्मादण्डाद्विभिन्नात्तु ब्रह्मणो व्यक्तजन्मनः ऋजो बभूवुः प्रथमं प्रथमाद्वदनान्मुने जपा पुष्पनिभाः सद्यस्तेजोरूपा ह्यः संहताः पृथक् पृथक् विभिन्नाश्च रजोरूपवहास्ततः यजों श्रिदक्षिणाद्वक्त्रादनिरुद्धानि कानिचिदयादृग्वर्णं पश्चिमं यद्विभोर्वक्त्रं ब्रह्मणः परमेष्टिनः आविर्भूतानि सामानि तत्तच्छन्तांसितान्यथा अथर्वणामशेषं च भृङ्गाञ्जनचयप्रभं यावद्धोरस्वरूपं तदाभिचारिकशान्तिकम् प्रकडी भूदं वदनात्तस्य वेधसः सुख सत्त्वतमःप्रायं सौम्याः सौम्या स्वरूपवद ऋचो रजो गुणास्सत्त्वं यजुषां च गुणामुने तमो गुणानि सामानि तमः सत्त्वमथर्वसु एतानि ज्वलमानानि तेजसा तेजसाप्रतिमेन वै पृथक्पृथगवस्तानभािपूर्वमिवाभवन् ततस्तदाद्यं यत्तेज ओमित्युक्त्वाभिषब्दते तस्य स्वभावाद्यत्तेजस्तत्समावृत्य संस्थितम् यथा यजुर्मयं तेजस्तद्वत्साम्नां महामुने ये, ते महा ये कमुपयातानि परे तेजस संश्रये शान्तिकं पौष्टिकं चैव तथा चैवाभिचारिकं ऋगादिषु लयं ब्रह्मं स्त्रयं त्रिष्वथागमद तदो विश्वमिदं सद्यस्तमो नाशात् सुनिर्मलं विभावनीयं विप्रर्शे तिर्य घूर्ध्वमधस्तदा ततस्तन्मण्डलीभूतं भूदं चांदसंतेज उत्तमं परेण तेजसा ब्रह्मण्ये गत्वमुपगम्य तत् विश्वस्यास्य महाभागकारणं चाव्ययात्मकं प्रादर्मध्यन्दिने चैव तथा चैव पराह्निके त्रयीतपदिशाकाले ऋग्यजुस्सामसंज्ञिता ऋचस्तपन्ति पूर्वाह्ने मध्याह्ने च यजों सामानि चापराह्णे वै तपन्ति शान्तिकमृक्षुपूर्वाह्णे यजुष्वेव पौष्टिकं विन्यस्तं साम्नि सायाह्णेख्याभिचारिकमन्ततः मध्यं दिने पराह्णे च चा। समे चैवाभिचारिकम् अपराह्ने पितॄणां तु साम्ना कार्याणि तानि वै विसृष्टौ हृङ्मयो ब्रह्मा स्थितौ विष्णोर्यजुर्मयः रुद्रसाममयोन्तेज तस्मात् तदेवं भगवान् भास्वान् वेदात्मा वेदसंस्थितः वेदविद्यात्मकश्चैव परः पुरुष उच्यते सर्गस्तित्यन्तहेतुश्च रजसत्त्वादिकान् गुणान् आश्रित्य ब्रह्मविष्णवादिसंज्ञामभ्येदि शाश्वतः देवै सदेढ्य सधुवेदमूर्तिरमूर्तिराद्योऽखिलमर्थमूर्तिः वेद्य धर्मा विश्वाश्रय ज्योतिरवेधर्मा वेदम्यश्माकंडेयपुराणे मतंड महात्म्ये नवनव्याय